अथर्वेदे द्वितीयाष्टके चतुर्थोऽध्यायः ॐसा जन्म हे पूर्वम् अहित्वम् ऋषभस्य केतवे वैधे वयामन्मरुदस्तु विश्वणो दुदेव शक्रास्तविषाणि कर्तन नित्यम् न सोनम् मधुबिभ्रत उपक्रीडन्ति क्रीडाविदधे सुयः नक्षन्ति रुद्रा अवसानमस्मिन्नमर्धम् निस्मतवसोऽहविश्रुतम् यस्मा उमा आसो अमृता अरा आसतरायः स्पोशन्त हविषाददाशुषेः उक्षम् यस्मै मरुतो अहिता इव पुरो रजा अंसि पयसामयो भुवाः आयेरजा अंसि तविषेभिनौ यत प्रव भजन्ते विश्वा भुवनानि हर्म्या चित्रो योजामः प्रयता सृष्टिषो यत्त्वेषया आमा नदयन्तपर्वताम् दिवो वा आपृष्ठन्नर्या अजुच्यवुः विश्वो ओभो अज्मन् भयते वनस्पतीरचीयन्ते एव प्रजि ओषधिः यूयन्न उग्रामरुतस्वचेतुनारिष्टग्रामास्वमतिम् विवर्तन यत्रा आवो विद्युद्रदति क्रिविर्दलीरिणातिपश्वः सुधितेवबर्हणाः प्रस्कम्भदेष्णानवभ्रदासोलात्रिणासो विदधे सुष्टुताः अर्चन्त्यर्कम्मदीरस्य पीतये विदुर्वीरस्य प्रथमा निपुंस्या शतभुजि विश्वमभिः कृते रघात्पूर्भि रक्षता मरुतोऽयमावत जनयमुग्रास्तवसो विलक्ष्य पार्थनासंधार्थनयस्य दुष्टिषु विश्वानि भद्रामरुतो रथेषु वो मिथस्पृध्येवत विषाण्याहिता हंसेष्वावप्रभथेषु खादयोक्षो वश्चक्रासमयाविवावृते भूरिणि भद्रानर्येषु शु। बाहुषु वक्षः सु रुक्मानभसासो अञ्जयाः अंशे श्वेताः प्रविशुक्षुरा अधिवयो न पक्षान्म्यनुश्रियोधिरे महान्द्रो मन्ना विभो ओ, ओ, ओ, ओ विभो तयो दूरे दृशो ये स्वरितार आसरिः इन्द्रे मरुतः तद्वः सुजाता मरुतो महित्रनन्दीर्घम् वोदात्रमदिव्रतम् इन्द्रश्च न सुकृते अराध्वम् तद्वो जामित्तम् युगे पुरो समृता स आवता मनवे सृष्टिमाव्या येन दीर्घम् मरुतः शूषवा मजुष्माकेन परेणसातुरा सह सा। आयत्ततनम् वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमस्याम् एष वस्तोमो मरुत इयङ्गीर्मान् दार्यस्य मान्यस्य कारो एषा यासीष्टतम् वे भजाम् विद्यामेषम् मृजनम् नीरदाहम् सहस्रन्त इन्द्रोतयो नः सहस्रमिषो हर्यो गूर्ततमाः सहस्रम् रायो मादयध्यैः सहस्रिण उप नोयन्तु वाजाः आ नोवभिर्मरुतो यान्त्वच्छाद्येष्ठेभिर्वा बृहद्दि वैः सुमायाः अथयदेशान्नियुतः समुद्रस्य चिद्धनयन्न पारे मिम्यक्षयेषु सुधिता धृता चीहिरण्यगुपरानृष्टिः गुहाचरन्ती मनुषो न योषा सभाववाक् परा शुभ्रा अयासो यव्यासाधारण्येव मरुतो मिमिक्षुः न रोदसी अपनुदन्तघोरा दुषन्तवृधम् सख्याय देवाः जोषद्यदीमसूर्या स च ध्यै विषिदस्तु कारोदसी नृमणाः आसूर्येव विधतो रथङ्गा त्वेषप्रतीका नभसो नेत्या आस्थापयन्त युवती युवानः शुभे निमिष्ट्राम् सुतसो मोदुपस्यन् व्रतम् विवक् विवक््योज एषाम् मरुता महिमा सत्यो अस्ति स चायी मृषमणा अहंयु स्थिरा चिजनिर्वहते सुभागाः पान्तिमित्रा वरुणापपद्यार्चयत इमर्यमो अप्रशस्तान् उदच्यवन्ते अच्युता ध्रुवाणि वा पृथ ईम् मरुतो न हीनो आरात्ता चिच्छवसो आरात्ताच्चिच्छवसोऽन्तमापुः ते धृष्णुनाशवसाशु शुवांसोऽर्णो न द्वेषो धृषतापरिष्ठुः वयमद्येन्द्रस्य प्रेष्ठा वयम् श्वो वो चेमहि समर्ये वयम् पुरामहि च नो अनुद्योऽन्तरुभुक्षा एष वस्तोमो मरुत इयङ्गीर्मान् धार्यस्य मान्यस्य कारोः एषा याशेष्टतन्वेपयाम् विद्यामेषम् रजनम् जीरदानुम् यज्ञायज्ञापः समना तु गर्वनिर्धीयन्तियम् वो देवया उदधिद्धे आवोर्वाजस्वविताजरोदस्योर्महे वृत्त्यामवसे सुवृत्तिः वम्रासो नये स्वजास्व तव स इषं स्वरभिजायन्तदूतयः सहस्रियासो अपान्दोर्मय आसागा वो वन्द्याः सोनोक्षणाः सोमासोनये सुतास्तृप्तांशवो हृत्सु पीतासोदुवसो नासते ऐषामंसे एषु रम्भिणीवलारभे हस्ते एषु खादिश्च कृतिश्च अपस्त्वयुक्तादिव आवृता यजुरमर्त्याः कृषया चोदतत्मनाः अरेण वस्तु विजाता अचुच्यबुर्दृढानिचिन्मरुतोऽभ्राजदृष्टयः को गोन्तर्मरुतदृष्टिविद्युतो रेजत्कृष्मनाहन्वे एव जिह्वया धन्वच्युत इशान्नया मणिपुरुप्रैषाः अहन्यो नैदशः क्व स्विस्य रजसो महस्परम् का वरम् मरुतो यस्मिन्नायया यच्च्यापयथ पिथुरे वसम्हितम् यद्रिणापतथ त्वेषमर्णवम् सातिर्नवो मवति स्वर्वदे त्वेषा असुर्ये भजञ्जते प्रतिष्टो भन्ति सिन्धवः पविभ्यो यदभ्रियाम्बाचमुदीरयन्ति अवस्मयन्त विद्युलः पृथिव्याय्यतेः घृतम् मरुतः पृष्टुवन्ति असोतपृष्टर्महतेरणा यत्ते शमजासाम् मरुतामनीकम् ते सप्सरासो मरुता जनयन्ता भवादि स्वधामि शिराम्बर्यपश्यन् एष वस्तोमो मरुत इयङ्गीर्माम् धार्यस्य मान्यस्य कारोः एषा याशीष्टतन्वेवयाम् विद्यामेषम् वृजनम् वीरदानुम् महश्चित्त्वमिन्द्रजत एतान् महश्चिदसि चतसोपरुता स नो मेथो मरुताञ्जिकित्तान्सुन्नावनुष्वतवहि प्रेष्ठा अयुज्रन्त इन्द्रविश्वकृष्टिर्विदानासो निःशिथो मर्त्यत्र मरुतामृत्सुतिरः समानाः स्वर्मेण्णस्य प्रधनस्य सातौ अम्यक्सात इन्द्रकृष्टिरस्मे स नैव्यभ्वम् मरुतो जुनन्ते अग्निश्चिद्धिष्मा तसेषु शुक्वानापोनद्वीपम् त्वन्दो न इन्द्रतम् रजिन्दा जिष्ठया दक्षिणयेव राजिम् तुस्ते चकनन्तवाजोस्तनन्नवद्धः पीपयन्तवाजैः त्वे राय इन्द्रतोषतमाः प्रणेतारः कस्य चित्रतायोः ते शुणो मरुतो मृणयन्तु ये स्मा पुरागा आतूयन्ते एव देवाः प्रतिप्रयाहीन्द्रबीढुषो महः पार्थिवे सदनेयतस्व अथ य तेषामृथुबुध्ना स एतास्तीर्थे नार्यः पौंस्यानि तस्थुः प्रतिघोराणामेताः नामयासाहम् मरुताहम् शृण्व आयतामुपब्धिः ये मर्त्यम् वृतमायन्तमोमयैर्णावानपतयन्त सद्ग्वैः त्वम् मानेभ्य इन्द्रविश्वजम् नारदाः मरुद्भिः स्वरुतो गो अग्राः सर्वानेभिस्तपसे देवदेवैर्विद्यावेषम् रजनम् जीरदानुम् न न न नू नमस्ति नोश्वः क्रस्तद्वे जयदद्भुतम् अन्यस्य चित्तमभिसन्तरेण्यमुताधीतम् विनश्यति किम् न इन्द्रजिघांससिभ्रातरो ते कल्पस्व साधुयामानः समरणे वदीः इन्नो भ्रातरगस्य सखा सन्नति मन्यसे विद्माहिते यथामनोऽस्मभ्यमिन्नदित्ससि अरम् कृण्वन्तु वेदिम् समग्निमिन्धताम् पुरः तत्रामृतस्य चेतनम् यज्ञन्ते तनवावहै त्वमीषिषेवसुपतेवसूनाम् त्वम् मित्राणाम् मित्रपदेधेष्ठाः इन्द्रत्वम् मरुद्भिः सम्वदस्वाधप्राशा नरुतुथा हवींषि प्रतिव नमसाहमे नमसाहमेमि सूक्तेन भिक्षे सुमतिम् दुराणाम् राणतामरुतो वेद्याभिर्न्ये धत्त मो धत्तविमुचद्भमश्वान् एषमस्तोमो मरुतो नमस्वान हृदा दृष्टो उपेमायातमनसादुषाणा यूयम् हिष्ठा नमस इृधासाः स्तुतासो नो मरुतो मृळयन्तुतस्तुतो मखवाशम्भविष्ठः ऊर्ध्वानसन्तु कोम्यावनान्यः निविश्वा मरुतो जिगीषा अस्मादहन्तविशादीशमाण इन्द्राद्विया मरुतो रेजमानः युष्मभ्यम् हव्या निशितान्या सन्तान्यारे च क्रमामृता नः येन उस्राव्युष्टिषुषवसा शश्वतीनाम् स नो मरुद्भिर्वृषभश्रवोधा उग्र उग्रेभिस्थविरः स होलाः तम्बा हेन्द्रसहीयसोरन्भवा मरुद्भिरवयातहेळाः सुप्रकेतेभिः सा सहिर्दधानो विद्यामेषम् रजनम् जीरदानुम् चित्रो वोस्तु यामश्चित्रभूतीसु दानवः मरुतो अहि भानवः आरेसामस्तु दानवो मरुतरुञ्जतीशरुः आरे, आरे अश्मायमस्यथ तृणस्कन्दस्य रुविशः परिवृन्तसु दानवः ऊर्धान्नः जीवसे गायत्सामनभन्या इथा वेरच्चा आमतद्वा आ प्रधानम् स्वरवत् गावो धेनवो बर्हिष्यदब्धा आयत्सद्मानम् दिव्यम् विवासान अर्चद्गृषा वृषभि स्वेदुहं यैर्मृगो राष्टो यज्जुगुर्यात् भरते मर्यो न क्षब्दोतापरिसद्मवितायन् भरद्गर्भमा शरदः पृथिव्याः रन्ध्रदश्वो नयमानो रुवद्गौ रन्धर्दूतो न रोदसी च रद्वाग पाकर्माशतरास्मैप्रत्यौत्मानि देवयन्तो भरन्ते द्विजोषतीन्द्रो दस्नवृत्तानासत्येव सुज्ञो रथेष्ठाः तमुष्पुहीन्द्रयो हसत्पायशूरो मखवायो रथेष्ठाः प्रतीतश्चिद्योधी यान्मृषन्वा नो वृषश्चित्तमसो विहन्ता प्रयलित्थामहीना दृग्भ्यो अस्त्यरोदशी लक्ष्ये एनास्मै संविन्द्रो वृषनन्दभूमा भर्ति स्वधा वाङो वशमि वद्या समत्सुत्वा शूरसतामुराणम् प्रपथिम् सजोषे शोडे सूरिञ्चिद्य अनुमदन्ति वा हि तेषा एवाहिते आपो यत् आसु मदन्ति देवीः विश्वा ते अनुजोष्या आ भूद्गौ सूरिंश्चिद्यतिषावेशिजनान् वसा आमयथा आसुषाद येन नरान् नरान्नशंसैः असद्यथा आन इन्द्रो वन्दनेष्ठा स्थुरो न कर्म नयमान उक्ता रस्माका नरान्वशंसैरस्माका आसदिन्द्रो वज्रहस्तः पित्रायुवो न कूर्पतिम् सुशिष्टौ मध्यायुव उपशिक्षन्ति यज्ञैः यज्ञो यष्मेन्द्रङ्गश्चिदृङ्गञ्जुगुराणश्चिन्मनसापर्यन् तीर्थेनाच्छा तादृशाडमोको दीर्घो न शीघ्रमा कृणोत्यद्भव मूढोण इन्द्रात्र भृत्सु देवैरस्ति एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुम् हरिवो विदो नः आनोपवृत्या सुविताय देवविद्यामेषम् वृजनम् जीवदानुम् त्वम् राजेन्द्रजे च देवारक्षान् पाह्य सुरत्वमस्मान् त्वम् सत्त्वनिर्मघवा नस्तरुक्रस्त्वम् सत्योपसवानः सहोदाः दनो विष इन्द्रवृद्रवाच सप्त यत्पुरः शर्म ृणो रवो अनमद्यार्णायूने वृत्रम् पुरुकुत्साय रन्धेः अजावृत इन्द्रशूरपत्न्यैर्द्याञ्चलेभिः पुरुहूत नूनम् रक्षो अग्निमशुषन्तोर्वणम् सिंहोऽनद मे अपारम् शिवस्तोः शेषन्मुत इन्द्रसस्मिन्न्यो नौ प्रशस्तयेपैरवस्य मञ्जा सृजतर्णांस्य वयम् युधागाद्धरे दृशतामृष्टवाजान् वः कुत्समिन्द्र यस्मिञ्चाकंस्यो मन्यो वृज्रावा तस्याश्वा प्रसूरश्चक्रम् रहता लभीकेभिः स्पृतो इन्द्रमित्रे रोञ्चोदप्रवृद्धो हरिवो अदाशोर प्रये पश्यन्नर्यवणम् स चायोस्तयाशूर्ता अपत्यम् नरपत्कविरिन्द्रार्कसातोक्षान्दासायोपबर्हणीकः करत्रिस्रो मखवातानुचित्रानि दुर्योणे कुजवाचम् मृधि श्रेत् स नातात इन्द्रनम् या आगुःसहो नभो विरणाय पूर्वीः विदत्पुरोनभिलो अरेर्ननमोपधरदेवस्य पीयोः त्वम् ध्वुनिरिन्द्रधुनिमतीपः सीरानुस्रवन्दे प्रयत्समुद्रमतिशूरपर्षि पारया तुरुपशंजतुम् स्वस्ति त्वमस्माकमिन्द्रविश्वथस्यावृकतमो नरान्द्रपाता स नो विश्वाः सां स्पृथां स होदा विद्यामेषम् रजनन्दीरदानुम् मत्स्यपायिते महःपात्रस्येव हरिवो मत्सरो मदाः वृषाः ते कृष्ण इन्दुर्वाजीसहस्रसा आनस्ते गन्तुमत्सरो वृषा मदूवरेण्यः स हावाहङ्गिन्द्रसा नसिः प्रतनाषाणमर्त्यः त्वम् विशोरः सनिताचोदयो मनुषोरथम् ओजसा वः सुष्णाय वधम् कुत्संवातस्याश्वैः सुष्मि तमोहिते मदोद्युम्निन्दममुत क्रतोः वृत्रघ्नापरि गोविरामम् श्रेष्ठा अश्वसा तमः यथा पूर्वेभ्यो जरितृभ्य इन्द्रमयो न दृश्यते बभूथ तामनुत्वा निमिदम् जोहवेमि विद्यामेषम् मृदनञ्जीरदानुम् मत्स्यलो वस्य इष्टय इन्द्रमिन्दो वृषा विष रघायमाण इन्मसि शत्रुवन्ति न विन्दसि तस्मिन्नावेशयागिरो य एकश्चर्षणीनाम् अनुस्वधायमुप्यतेयमन्नचर्गृषदृशाः यस्य विश्वा निहस्तयोः पञ्चक्षितीनाम् वसो स्पाशयस्वयो अस्मद्धृग् वाशनिर्जहे असुन्वन्तम् समञ्जहि धूढा संयोनते मया अस्मभ्यमस्य वेदनम् दद्धि सूरिश्चिदोहते आगो यस्य द्विपरहसोऽर्ग्येषु सानुशगसत् आजाविन्द्रस्येन्द्रोऽप्रागो बाजेषु वाजिनम् यथा पूर्वेभ्यो चरितृभ्य इन्द्रमय इवाभो न दृश्यते बभूथा तावनुत्वारिविदम् जोहवेमि विद्यामेषम् वृजनम् जीरदानम् आचर्षणिप्रावृषभोजनानाम् राजा कृष्टीनाम् पुरुहूत इन्द्राः सुतश्रपस्यन्नवसोपमद्रिग्युक्ता हरे मृषणायाः शर्वाङ् ये ते वृषणो वृषभास इन्द्रब्रह्म युजो तिष्ठतेभिराजाह्यर्वाङ् हवा आ महे त्वा सुत इन्द्रसोमे आतिष्ठर सम् मृषणम् मृषा ते सुतः सोमः परिषित्तामधूने युक्त्वा वृषभ्याम् मृषभक्षितीनाम् हरिभ्याम् याहि प्रवतोपमद्रिक अयम् यज्ञो दे पया इमा ब्रह्माण्ययमिन्द्रसोमाः स्तीर्णम् बर्हिरातु शक्रप्रया हि पिबा निषद्यविमुचा हरि इह ओ सुष्ठुत इन्द्रया ह्यर्वामुपब्रह्माणि मान्यस्य कारोः विद्यामवस्तोरवसा गृणन्तो विद्यामेषम् वृजनम् जीरदानुम् यद्ध स्यात इन्द्रः सृष्टिरस्तिजया बभूथजरितृभ्य मानःकामम् महयन्तश्वादे अश्याम् पर्याप आयोः न घारादेन्द्र आलभन्नो यानुस्वसारा कृणवन्दयोनोः आपश्चिरस्मै सुदुगाः अवेशङ्गमन् न इन्द्रः सख्यावयश्च जेतारभिरिन्द्रः प्रत्सुषोरश्रोराहवन्नाधमानस्य प्रभर्ता रथन् दाशुष उपाक उद्यन्ता गिरो यदि चत्मनाभूत् एवानृभिरिन्द्रः सुश्रवस्याप्रखादः प्रक्षो अभिमित्रिणोऽभूत् समर्य इषस्तव ते विवादिसत्राकरो यजमानस्य शंसाः त्वया वयम् अघवन्निन्द्रशत्रोरभिश्या मम हतो मन्यमानान् न्त्रातात्त्वमनो वृधे भोर्विद्यामेषम् वृजनञ्जीरदानुम् पूर्वैरहम् शरदश्रमाणा दोषावस्तो ऋषसो जलयन् देः मिनातिश्रियञ्जलिमातनो नामप्योऽनुपत्नीर्वृषणो जगम्युः ये चिद्धि पूर्वरतसाप आसन् साकम् देवेऽभिरवदम् धृतानि ते चिदवासुर्नह्यन्तमापुःसमोऽनुपत्नेर्वृषभिर्जगम्युः न मृषा श्रान्तम् यदवन्दि देवा विश्वा इति स्मृतो अभ्यश्नवा वा जया वेदत्र शतनीथमाजी यत्सम्यम् चामिथुना आजातो अमुतः लोपाः मुद्रा वृषणन्दीरिणातिथीरमधीराधयति श्वसन्तम् इमम् न सो ममन्तितो हृत्सुपीतमुपब्रुवे यच्छीमागश्च क्रमातत्सु मृळतु बुलका मोहिमत्याः अगस्त्यः खरमानः खनित्रयेः प्रजामपत्यम् बलमिच्छमानः उभौ वर्णाऋषिग्रः पुपोषसत्या देवेष्वाशिषो जगाम युगोरजांसिषुयमाः सोऽश्वारसो यद्वाम् पर्यर्णांसिरीयत हिरण्यया वाम् अवयः पृषायन्वद्वः पिबन्दाषसः सचेते युगवत्यस्यापरक्षतो यद्विपत्मनो निर्यस्य प्रयज्वोः स्वसायद्वाम् विश्वपूर्ति भराधिपाजायेट्टे मधुपापिशे च युवम् पय उश्रियायामधत्तम् पक्वमामायाममपूर्जङ्गोः अन्तर्यध्वनिनो वामृतत्सूह्वारो न सुचर्यजते अविष्मान् युवम् हर्मम् मधुमन्तमत्र येपो न क्षोदो वृणीतमेषे तद्वान्नरावश्विश्वइष्टे रथ्ये एव चक्रा प्रति यन्ति मध्वाः आवान्तानायवृतीयतस्राघोरोहेण तौग्र्यो न अवहाक्षोळी सजते माहिनावान् नावाञ्जूर्णो वामक्षुरम् ह सोऽयत्रा नियद्युवेथे नियुतः सुदा नो उपस्वधाभिसृजतः पुरम् हिम् प्रेषद्वेषद्वातो न सूरिरामहे तदे सूरतो न युवाञ्चिद्धिष्माश्विनामनुद्योन्विरुद्रस्य प्रस्रहणस्य सालौ अगत्यो नरान्द्र प्रशस्तः काराधुनिवचित यत्सहस्रैः प्रयद्वहेथे महिना रथस्य प्रस्तन्द्रायाथो मनुशो नोता दत्तम् सूलिभ्य उदवा स्वश्रिन्नासत्यारयिषा च स्याम ्रम्मद्याहुवे मतो मयि रश्विना सुविदाय अरिष्टने बिम्फ विद्यामि यानम् विद्या वेशम् वृजनम् जीरदानम् कथम् प्रेष्ठाः विशाम्रजीणामध्वर्यन्तायतु निजीथो अपाम् अयम् वा अञ्यज्ञो अकृत प्रशस्तिम् आवा पयस्पा वातब्रह्मसो दिव्यासोऽत्याः मनोजो वृषणो वीतपृष्ठादेहस्वराजोऽश्विना वहन्तु आवामृथोमनिरनप्रवत्ताम् सुप्रवन्धुरः सुविताय गम्याः कृष्णस्थाता रामनसो दिवीयानहम् पूर्वो यजतोऽधिन्यायः समभावसीतामरेपसा तन्वा आनामभिस्वैः जिष्णुर्वामन्यस्सु मखस्य सूरिर्दिवो अन्यस्सुभगः पुत्र ऊहे प्रवाह्निचेरुक्रकुहोपशाङ्शङ्गः सदनानि गम्याः हरे अन्यस्य पीपयन्तवाजीन् बिधाम् श्यश्विनाविघोषैः ृषभो न निः पूर्वेष्णनम् एवैरन्यवादैर्वेशर्ध्व नद्योः असर्जिवां स्थभिरावेधसागेर्पाढे अश्विनात्रेधाक्षरन्ते उपस्तुतान्नाथमानय्यामन्नयामशृणुतम्भवम् मे उतस्या वाम् वृषतो वृत्सो गे स्त्रिबर्हिषि सदसि पिन्वेन वृषा वाम् मेघो वृषणापीपायगोर्नसे युवाम् पूषे वा अश्विना पुरन्तिरग्निवशान्नजरते हविष्पान् उरे यद्वाम्बरि पश्यागृणानो विद्यामेषम् अपोदिदम् वयुनमोऽशुभूषता रथो ऋषण्वान्वदता मनीषिणः धियञ्जिन्वाधिष्ण्याः विष्पलाः वसु दिवोरपाता सुकृते शुचिवता इन्द्रतमाहिधिष्ण्याः मरुत्तमा दस्रादम् सिष्ठा रथ्या रचितमा पूर्णम् रथम् महे धे मध्वादि वन्देन दाश्वाम् समुपयाथो अश्विना किमत्र तस्रा कृणुतः साथे जनो यः कश्चिदः विर्महीयते अतिक्रमिष्टञ्जुरतम् पणेरसंज्योतिर्विप्राय कृणुतम् वदस्य वे जम्भयतमपि तोरायतश्नो हतम् मृदो विदथुस्तान्यश्विना वाचम् वाचम् चरितो रत्निनेकृतमुपाशंसा न सत्यावतम् ममा युववेदम् चक्रतुःसिन्धुषु प्लवमात्मन्दन्तम् पक्षिणम् तौग्र्यायकम् येन देवत्रामनसा निरोहथुः स्वपप्तलीपे तथोक्षोदसोमः अवविद्धन्तौग्र्यवप्सा अन्तरनारम् ऋयेतमसि प्रविद्धम् तश्रो नाभोजठलस्य दुष्टा उदश्विभ्यामिषिताः पालयन्ति कस्मिद्वृक्षो निष्ठितो मध्ये अर्णसोऽयन्तौ ग्र्यो नाधितः पर्यशस्व यत् पर्णामृगस्य पतरोरिवारभ उदश्विनामोहतु श्रोमतायकम् तद्वाहन्नराना सत्यामनुष्याद्यद्वाह्मानास उचमवोचन् अस्मादद्य सदसः सोम्यादाविद्यामेषम् वृजनम् जीरदानुम् तञयञ्याथाम् मनसो योजवीयान्त्रिमन्धुरो वृषनायस्त्रिचक्रः येनोपयाथः सुकृतो दुरोणम् त्रिधातु नापतथोभिर्नपर्णैः सुहृद्रथो वर्तते यन्नभिक्षा यत्तिष्ठतः कृतु मन्दानुकृक्षे अपूर्वपुष्यासदतामियङ्गीर्दिवोरुहित्रोषसा सचेथे आदिष्ठतम् सुरतयोरथो वामनोरथा निवर्तते हविष्मान् सत्येषयध्ये वर्तिर्यासस्तनया यत्मने च मा वामृको मा वृकीरा परिवर्तनम् अयम् वाम् भागो निहित इयङ्गीर्दस्रा आविमे वाम् युवाङ्गोतमः पुरुमे अत्रुर्दश्रापते वसे हविष्मान् दिशन्न दृष्टामृजो ये वयन्तामेहवन्मा सत्योपजातम् अतरिष्वरमस स्वारमस्य प्रतिभां स्तोमाश्विनावधायि एहयातम् प्रसिधर्देव जानैर्विद्यामेषम् मृजनञ्जीरदानुम् इति द्वितीयाष्टके चतुर्थोऽध्यायः